चमकखनम् अनुवाकं वन् अग्ना विष्णु सजोषसा सजोषसाग्ना विष्णो अग्ना विष्णो सजोषसे मा येमा सजोषसाग् विष्णो अग्ना विष्णो सजोषसे मा अग्ना विष्णु इत्यग्ना विष्णु सजोषसेमा इमा सजोषसा सजोषसे मा वर्धन्तु वर्धन्द्विमा सजोषसा सजोषसे मा, मा वर्धन्तु सजोषेदि स जोषसा इमा वर्धन्तु वर्धन्त्विमा इमा वर्धन् दो वां वां वर्धन्त्विमा इमा वर्धन् दो वां वर्धन् दो वां वां वर्धन् दो वर्धन् दो वां वर्धन् दो वर्धन् गिरो वां वाङ्गिरः गिर द्यों नायर् वाजे भेर् वाजे भिरा वाजे भेर् द्यों नायर् द्युं नायर् वाजे भिरा भिरा वाजे आगदं गदमागदम् गतमिति गदं वाजश्च च वाजो वाजश्च मे मे च वाजो वाजश्च मे च मे मे च च च प्रसव प्रसवो मे च च मे प्रसव प्रसवो मे प्रसवश्च च प्रसवो मे प्रसवश्च प्रसवश्च च प्रसव प्रसवश्च मे मे च प्रसवः प्रसवश्च मे प्रसव इदि प्रसवः च मे मे च च मे प्र यदि प्र यदेर्मे च च मे प्र मे प्र यदि मे प्रयतिश्च च प्र यदिर्मे मे प्रयदिश्च प्रयतिश्च च प्रयधि प्रयतिश्च मे मे च प्रयधि प्रयतिष्ठ मे प्रयतिरिधि प्रयदिः च मे मे च प्रसिद्धिश्च च प्रसीधि प्रसिद्धिश्च मे मे च प्रसिद्धि प्रसितिश्च मे प्रसितिरिति प्रसीतिः च मे मे च च मेधि दीर्धेर्मे च च मेधिः मेधि देदिश्च च देदेर्देदिश्च मे मे च धीदेर्धेदिश्च मे च मे मे च च मे क्रदुक्र दोर्मे च च मे क्रदुः मे क्रदुक्र दोर्मे मे क्रदुश्चचक्र धर्मे मे क्रदुश्च क्रदुश्च चक्रदक्रदुश्च मे मे चक्रदक्रदुश्च मे च मे मे चचमे स्वरो मे चचमेरः मे स्वर स्वरो मे मे स्वरश्च स्वरो मे मे स्वरश्च स्वरश्चस्वरस्वरश्च मे मे च स्वरस्वरश्च मे चमे च च चमे श्लोकश्लोको मे च चमे श्लोकः मे श्लोकश्लोको मे मे श्लोकश्च च श्लोको मे मे श्लोकश्च श्लोकश्च च श्लोकश्लोकश्च मे मे च श्लोकश्लोकश्च मे च मे च च मे श्रावश्रावो मे च च मे श्रावः मे श्रावस्रावो मे मे श्रावश्च्रावो मे मे श्रावश्च स्रावश्चचस्रावस्रावश्च मे मे चस्रावस्रावश्च मे मे मे च च मे श्रोधि श्रोधिर्मे च मे श्रुधिः मे श्रो श्रोर्मे मे श्रोधिश्च्रोधिर्मे श्रुतिश्च चश्रुतिश्रुदिष्ट मे मे चश्रुतिश्रुतिष्ठमे च मे मे च च मे ज्यो दैर्ज्यो देर् च च ज्योतिहि मे ज्यो दैर्योर्मे मे ज्योतिश्च च ज्योतिर्मे मे ज्योतिष्ठ ज्योतिश्च च ज्योतिर्योतिष्ठ मे मे च ज्योतिर्ज्योतिष्ठ मे च मे मे चचमे सुवसु वर्मे च चमे सुवः मे सु च सु वर्मे मे सुवश्च सुवश्च मे मे च सु वत्सु वश्च प्राणप्राणो मे प्राणः मे प्राणप्राणो मे मे प्राणश्च च प्राणो मे मे प्राणश्च प्राणश्च च प्राणप्राणश्च मे मे च प्राणप्राणश्च मे प्राण इति प्र अनः च मे मे च च मे पानो पानो मे च च मे पानः मे पानोपानो मे मे पानश्च च पानो मे मे पानश्च अपानश्च च पानोपानश्च मे मे च पानोपानश्च मे अपान इत्यप अनः च मे मे च च मे व्यानो व्यानो मे च च मे व्यानः मे व्यानो व्यानो मे मे व्यानश्च चव्यानो मे मे व्यानश्च व्यानश्च चव्यानो व्यानश्च मे मे चव्यानो व्यानश्च मे व्यान इ दिवि च मे मे च च मे सुरसुर्मे च च मे सुः मे सुरसुर्मे मे सुश्चचासुर्मे मे सुश्च असुश्च चासुरसुश्च मे मे चासुरसुश्च मे च मे मे च च चित्तं चित्तं मे चित्तं मे चित्तं चित्तं मे चित्तं च चित्तं मे चित्तञ्च चित्तं च चित्तञ्चित्तं च मे मे च चित्तं चित्तञ्च मे च मे मे च च म आधीदमधीदं मे च च म आधीदं मे म चाधीदं मे म आधीतं चाधि दमाधितं च मे मे चाधि वाङ्मे च च मे वाङ्मे मे वाक् च च वाङ्मे मे वाक् वाक् चवाक्वाप् च मे मे च वाक्वाप् च मे च मे मे च च मे मनो मनो मे च च च च च च च च च च च च मे मनः मे मनो मनो मे मे मनश्च च मनो मे मे मनश्च मनश्च च मनो मनश्च मे मे च मनो मनश्च मन। मन मे च मे मे च च मे चक्षुश्चक्षुर्मे चच चक्षुश्च चक्षुर्मे मे चक्षुश्च चक्षुश्च चक्षुश्चक्षुश्च मे मे श्रोत्रम् मे श्रोत्रग् श्रोत्रं मे मे च श्रोत्रं मे मे श्रोत्रं च श्रोत्रं च मे मे च श्रोतृग् श्रोत्रं मे च मे मे च च दक्षो मे च दक्षः मे दक्षो दक्षो मे मे दक्षश्च च दक्षो मे मे दक्षश्च दक्षश्च च दक्षो दक्षश्च मे मे च दक्षो दक्षश्च मे च मे मे च च मे बलं बलं मे च च मे बलं मे बलं बलं मे मे बलं च च बलं मे मे बलं बलं च च बलं बलं मे मे च बलं बलं मे च मे मे च च म ओज ओजो मे च च म ओजः म ओज ओजो मे म ओजश्च चौजो मे म ओजश्च ओजश्च चौ ज ओजश्च मे मे चौ ज ओजश्च मे च मे मे च च मे सख सखो मे च च मे सहः मे सख म आयुरायोर्मे म आयुश्चचायोर्मे म आयुश्च आयुश्च चायुरायुश्च जरा च च जराजरा च मे मे च जराजरा च मे च मे मे च च म आत्मात्मा मे च च म आत्मा म आत्मात्मा मे मत्मा चात्मा मे मत्मा च आत्मा चात्मात्मा च मे मे चात्मात्मा च मे च मे मे च च मे तनुस्तनुर्मे च च मे तनुः मे तनुस्तनुर्मे च तनोस्तनुश्च मे मे च तनोस्तनुश्च मे च मे शर्म शर्म मे मे शर्म च च शर्म मे मे शर्म च शर्म च च मे मे च मे च मे मे च च मे वर्म वर्म मे च च मे वर्म ये वर्म वर्म मे मे वर्म च च वर्म मे मे वर्म च वर्म च च वर्म वर्म च मे मे च वर्म वर्म च मे च मे मे च च मेङ्गान्यङ्गानि मे च च मेङ्गानि मेङ्गान्यङ्गानि मे मेङ्गानि च चाङ्गानि मे मेङ्गानि च अङ्गानि च चाङ्गान्यङ्गानि च मे मे चाङ्गान्यङ्गानि च मे चमे मे मे च च चमेस्तान्यस्तानि मे च चमेस्तानि मेस्तान्यस्तानि मे मेस्तानि च मे मेस्तानि च अस्तानि च च मे च मे च मे मे च च च च च च च च च च च च मे परोगंषि परोगंषि मे च च मे परो गुंषि मे परो गुंषि परो गंशि मे मे परो गं शि च मे मे परो च परो गं शि च च मे मे च परो aruhum shichame chame me chachame sharirani sharirani me chachame sharirani me sharirani sharirani me me sharirani chach sharirani me me sharirani ch Chari ra ni cha cha chari ra ni chari ra ni cha me me cha chari ra ni cha me cha me me cha cha me ma i di me